मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं ट्वेन्टि त्रि वैशाखकृष्णचतुर्थीचरितम् श्रीगणेशाय नमः दशरथ उवाच वैशाखे कृष्णगायास्त्वं चतुर्थ्या वदसाम्प्रदं माहात्म्यं मुनिशार्दूल न समासतः वसिष्ठ उवाच अगस्त्यो मुनिमुख्यश्च समुद्रशोषणे रतः नशशाकमहातेजा ब्रह्मणं शरणं ययौ ब्रह्मणानोधितःपि चकारव्रतमुत्तमं वैशाखे कृष्णपक्षे स चतुर्थ्यां विधिपूर्वकं ज्ञात्वा माहात्म्यमुग्रं स नित्यं मन्द्रपरायणः शौक्लं काष्णं व्रतं सर्वैश्चकार मुनिसत्तमैः दशरथ उवाच तपस्तेजो युधः साक्षादगस्त्य सर्वशास्त्रविदव्रतहीनः कथं सोऽपि कुण्ठितश्च महाद्युदिः वसिष्ठ उवाच शृणुराजन्महाभागसम्यक्पृष्ठं विचक्षण अधुना तस्य माहात्म्यं कथयामि समासदः अगस्त्यस्तपसा युक्तो बभूवाधीवदारुणः न समस्तेन राजेन्द्रब्राह्मणेषु तपस्विषु न व्रतं तेन ब्रवीमि कारणं तत्र शृणु संशयनाशनं वेदशास्त्रपुराणेषु कर्म नानाविधं नृप कथितं तच्च सर्वं तु कर्तुं केन प्रशक्यते स्वेच्छया कर्मण कर्ता स्वयं भवति मानवः तत्र मार्गं प्रवक्ष्यामि शृणुष्व सुसमाहिदः नित्यं नैमित्तिकं कर्म द्विविधं शास्त्रमार्गदः तत्रागस्त्यश्चकारासौ नित्यं कर्म महीपदे सर्वं त्यक्त्वा विधिसमन्वितः तपःसु तत्परो नान्यदजानात्स तपोधनः अतस्तेन व्रतं मुख्यं न धृतं राजसत्तम न समर्थेन शास्त्रेण्यच्छृणुष्व कथयामि ते गणेशभजनं मुख्यं सर्वेषां नात्र संशयः सर्वसिद्धिकरं प्रोक्तं वेदादिषु विशेषतः राजूलत ना संस्कार भज्र गणेश ब्रमण नाकंपर तपसा दग्ध पाप्च पुण्यराशि प्रजाते तदा रुचिभ गणेशे भक्ति संयुदा अदो तपसा युक्त गस्त तेजस्विनां वरह जातपात्रं विजानीहि ज्ञाने गाणेश संज्ञिते अगस्त्यक्रोधसंयुक्तो नृपवादाभिरक्षकं समुद्रं तं शोषयितुं क्षोभयामास चोद्यतः तत्रादिकुण्ठितो जातस्तदर्थं विस्मिदस्वयं स्वयं गत्वा ब्रह्माणमानम्यवचनं स जगादः अगस्त्य उवाच तपःसा जलधिं ब्रह्मन् शोषयामि न संशयः तत्र मे तपःसीकुण्डिताभूत् कथं वद ब्रह्मोवाच शृणुपुत्रमहाभागकारणं कथयामि ते नित्यकर्मपरस्त्वं वै सदा तपसि संस्थितः वत्स वत्सपूजनं नित्यमादराद करोषितेन भवति कर्म ते मुने तथापि नित्यवत्ताद चतुर्धीव्रतमुत्तमं कर्तव्यं यत्त्वया त्यक्तम् तन्नैमित्तिकमानतः चतुर्णां पुरुषार्थानां दायकं शास्त्रसम्मतं तेन हीनस्त्वमद्यैव कुण्ठितो नात्र संशयः अधुना तद्व्रतं मुख्यं कुरु भावसमन्वितः नित्यवत्तन्महाभागसमाचरविशेषदः तदा सङ्गणहीनस्त्वं चतुष्पदसमन्वितः पूर्णयोगी भवसि वै गणपत्यमवाप्स्यसि ततस्तेन हृतं राजन् व्रतं गाणेश्वरं महद पुरुषार्थसमायुक्तस्तेनैव स बभूवः समुद्रं शोषयामासव्रतपुण्यप्रभावदः अचलां गणनाथस्य भक्त्रिं चकार नित्यदा तदस्तेन विख्यादं विख्यातं तत्कृतं व्रतं नित्यवक्ते मुख्यं चक्रु सर्वार्थसिद्धये अन्यच्च शृणुमाहात्म्यं पुण्यदं श्रवणान्नृणाम् अवन्दीनगरे वैश्यो बभूवे पापकारकः बाल्यात् प्रारभ्यतेनैव कृतं पापं महाद्भुतं मरणावधिराजेन्द्र वक्तुं तन्न प्रशक्यते मादृहाद्रव्यलोभार्थं पितृहासं बभूवः गुरुद्रोहं चकारैव ब्रह्महत्यां समाचरेत् ततो लोकैः समाज्ञप्तो राजा तं निरवासयद ग्रामाद्वनं समागत्य गुहायां संस्थितो भवत् जपानमार्गकान् लोकान् जीवान्नाविधान् सदा तत्र प्रयोजनेनैव हीनो वा युक्त एव वा ततो बहुधनो जातश्चौरा सम्मिलिताः परे सः तैस्तत्र तेनैव कृतं दुर्गं सुदुर्गमं पर्व तत्र गृहं चक्रे महाखलः चौरास्तत्र निवासार्धमाययुः सर्वतस्थिताः तेषां राजा बभूवासौभार्या तत्र महीपदे पुत्री पुत्रपुत्रीभिरावृता यथेष्टं रमदे तत्र चौरैश्चौर्यपरायणः चकारलेशमात्रं स न पुण्यं दुर्मधिकदा मार्गे परस्त्रियं धृत्वा ससदी सदी दूषको यभत काश्चित्तत्र मृदा राजन् स्त्रियः सत्यो महाभयाद सो वन्दीपालको लोकैराजेन्द्रो बोधितस्ततः मार्गरोदभयाच्चौरम् तम् हन्तुम् प्रोद्यदोऽभवत् सर्वत्र दशदिक्ष्वेव सैनिकाः प्रेषितास्ततः राज्ञा चक्रुप्रयत्नेन रुद्धम् सर्वत्र तम् कलम् ततस्ते संधृतं चौरं पुत्रश्चौरै समन्वितं राज्ञे निवेदया मा दुष्टं वैश्ययो निजम् राजा चौरान् जखानापि जनैः शस्त्रधरैर्नृप तं वैश्यं बन्धने क्षिप्त्वा ताडयन्नित्यदाखलम् तदोकस्माच्चतुर्थी सा वैशाखी सहसा गदा कृष्णा तत्र च वैश्येन न प्राप्तं त्वन्नभक्षणम् नित्या ताडनभावेन दुःखितोदितरां कलह क्षुधया पीडितोत्यन्तं पापीस स निश्चिचैककः तदो दयायुतैस्तत्र राजदूतैश्च भक्षणं किञ्चिद्दत्तं विधोरेवो दये वैश्यो बभक्षसः पञ्चम्यां मृतस्तत्र बन्धने ताडिदो भृशं गाणे शैर्ब्रह्मभूदर्स कृतस्वानन्तके पुरे एतादृश्य सुदुष्टात्मा व्रतपुण्यप्रभावतः ब्रह्मभूदो बभूवापि किं पुनर्व्रतकारिणः एवं व्रतप्रभावेण जना ब्रह्मप्रलेभिरे तेऽत्र वक्तुं न शक्या वै भवन्ति नृपसत्तमा इदं वैशाखमासे वै चतुर्ध्यासं शृणोति कृष्णाया वापि पठति महात्म्यं लभदे परम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते वैशाख कृष्णचतुर्थी चरितं नामत्रयो विंशोऽध्यायः Om oh.